इन्द्राभरम्णम् शरक्रतो विचर्षणे आबीरम् मृतनाशहम् त्वम् हिनः पितावसोत्तम् माता शरक्रतो बभूवीधा अधा ते सुमहे त्वाम् सुमिन् पुरुहोदः जयन्तरुम ब्रुवेषु शरक्रतो सनो रास्व सुवीर्यम् स्वादोरित्था वेशोभतो वद्ध पिबन्ति शौर्याः या इन्द्रेण सजावष्णा वदन्ति शोभसेवस्फेरनुः स्वराज्यम् ता अस्य कृशनायुवः सोमम् शेनन्ति कृष्णजः प्रिया इन्द्रस्य धेन भो वज्रम् तिवन्ति सा सहस्तपर्यन्ति पूर्वचित्तरेव स्वराज्यम् इन्द्राजमन्दे सुतम् परिष्ठोभन्तु नो गिराः अर्कमर्क्रन्तु कारवाः यस्मिन् निःश्वाधिश्रियो सप्त संसदाः इन्द्रम् सुतेह मामहे त्रिगद्रुगेषु चेतनम् देवासो यज्ञमात्रताः यत्साममिन्द्रकृष्णवियद्वाहकृत आप्ते यद्वाह मरुत्सु मन्दशेषमिन्दोभिः यद्वादग्रपरावती समुद्रे अधिमन्दे अस्माकमित्सुतेन नाशमिन्दोभिः यद्वासी संवृतो वृथो इदमानस्य सत्पते उक्थे वा यस्य अरण्यशेषुभिः यदद्यगच्च वृद्रहन्नुदगाः अभिसूहुर्य सर्वम् तदिन्द्रे यद्वाहावृद्धसत्पते न परा इति मन्यसे कुतो तत्सत्यमित्तव एषो माहावति एवती सुंभये सर्वां स्ताम् इन्द्र गच्छसि उभयम् शृण्वचन इन्द्रोः सर्वा इदम् वचाः सत्राच्याः भगव सोमापीतरेष्ठ आगमत्मराजम् मृणवन्दमो जिषणेः निष्ठदक्षतोः उतोपवाराम् प्रथमो निषीदति सोपा हि देवलाः आभ्रातृर्व अनात्वमनाः बिरिन्द्रचरुः सदादरसि विभेदाः वित्वमिच्छसे न हि रेवन्तम् सख्याय विन्दसे बीयम् दि ते सुराष्टाः यथा घण्षीणंसो हस्यादित्यभूयसे अहमिष्परि भेदावृतस्य जग्रह अहम्सूर्यदिवाचनि अहम् वर्तते मन्माना गिरष्टुम्भाविकम् वहवत् येनेन्द्रहे ये त्वाविन्द्रष्टोषो ये च तुष्टो मे त्वर्थस्व सुष्ठुतः बा अमन् महेदनाशमो दुग्रासश्च वृद्रहन्न सकृत्सुधेः महताशुरराधासानु स्तोमम् मुदीमहि विभासोपमिन्द्र मन्द तु सुषाव हर्यश्वाद्रीः स्तो दुर्बाहुभ्याम् सुदतोणार्वा यस्ते मदो युज्यश्चिजेन वृत्राणि हर्यश्व सत्त्वामिन्द्रप्रभूवसोमवत्तो बोधासुवेः भगवन्माकमेवाम् याम् देवसिष्ठो अर्चति प्रशस्तिम् इमा ब्रह्म तथा वादे जुषस्व स्योषु पद इन्द्रविश्वाभिभूतिभिः भगन् हि त्वा यशसम् वसो विदमनुषूरचराहमति पौरो अश्वस्य पुरुगुर्गमाः अस्युत्वरण्जाः न गिरिहिरायम् परिवद्भिः शक्ते यद्यताभारा इन्द्राविन्दे मदाय इन्द्रम् प्रयत्यद्भारे इन्द्रम् समीचे मणिरो हमामः इन्द्रम् धनस्य सातये इन्द्रो बह्नारोदयसेव प्रथक्षव इन्द्रः इन्द्रेः शविश्व भुवनादिरे विर इन्द्रेः सुवानास इन्द्रवः वास्तामन्य पूर्वम् ब्रह्मेन्द्रायवोचत पूर्वेन्द्रस्य मेधा अधृक्षत तु वधूमन्तम् घृतश्चुतम् विप्राः सो अर्कमाः ऋजुः अस्मेर इष्टप्रथे वृष्ट्यम् यदिन्द्रप्रागपाकुदन्यद्बाहूयसेतुभिः श्रीमाम् पुरूषो अस्या नवेसि प्रसद्धतुर्वशे यद्वानु मेनुष मे श्यावके कृप इन्द्रपादयशेषाः सस्ता ब्रह्म निस्थोमाहत इन्द्रायच्छन् चागहि अभि त्वाः शूरणो नमो दुग्धा इव श्च जगतः सदृशमीशानमिन्द्रतस्थुराः नत्वा वा अन्यो दिव्यो न पार्थिको न जातो न जनिष्यते जा अश्वायन्तोः भगवन्निन्द्रवाजिनोः गम्यन्तस्त्वाह वामहे प्रेमदेहिर्नसह वा द इन्द्रेः सन्तु गत्वा वान्मनःस्तो दृभ्यो धृष्णवियानः ऋणोरक्षन्नचक्र्याः आयद्दुवश्चतक्रतय वा कामम् जरित्रेणा ऋणोरक्षन्नशतीभिः तत्सूर्यस्य देवत्तम् तन्मा हि संजवारा अध्याकर्तो सञ्जयभारदयुक्तहरितः स्थादात्रिमादस्तरुतेमस्मै न्मित्रस्य वरुणस्याभिचक्षे सूर्य रूपम् क्रीडुतेत्यरुपस्थे अनन्तमन्यद्दृश तस्य पादः क्लमन्यद्धरितः सम्भरन्ति कयाश्चित्रा भूवधूस कया चतिष्ठया वृता कस्त्वाः सत्योपदाः रामम् धिष्ठो मत्सदम् धातः दृढातु अभेषु न सखी नाम पिता क्षणम्भावा श्रोतिभिः इमानुकम्भुवनाशेण भावेन्द्रश्च विश्वे च देवाः यज्ञम् च न स्तन्वम् च कृपाते आदित्यैरिन्द्रस्तमरुद्भिरस्माकम् भूत्वा पिता हत्वाय देवासूरान्यदायम् देवादेहे मत्तमभिरक्षमाणाः प्रत्यञ्च वर्गमानयञ्चरीभिरादित्वधामीषिरा पर्यपश्यन् अयावाजम् देवही तम् सदे मम देवशतहीमा सुवीराः अवे इन्द्र प्राचो भगवन्न मित्रा न पापाचो अभिभूतेऽनुदस्मात् अपोदे च अपचूराधरा च पुनरुन्मतेव कुपिदङ्गयवधाम् च पूर्वम् विजून एहिटो नमो वृक्तिर्न जग्मः न हि स्थूर्यु तु जातमस्ति लोतश्रवो विविधे सङ्ग्रहणेषु गव्यन्तरिन्द्रम् सख्याय विप्राः अश्वायन्तो वृषाणम् भाजयन्तः युवम् सुराम वश्मिरा नवोचा वा सुरेधजाः विशोभस्पते इन्द्रम् कर्मश्वावताम् पुत्रमेव पितराः वस्मिनोभेन्द्रामधुः काव्यैः दंसनाःभिः यत्सुरामम् व्ये वश्चेभिः सरस्पति त्वामघवन्नभिष्णगे इन्द्रः सुत्रा भास्त्वम् अभोभिस्तुमृणीको भवतु विष्णवेदाः बाधतान्देषु अभयन्नः कृणोतु सुवेर्यस्य पत यस्या वा स सुत्रा भास्वभाम् इन्द्रोः अस्मदाराचिद्वे शस्वरुदर् यतु तस्य वयम् सुमतौ यज्ञियस्यापि भद्रेसौ मनथे स्या विहि सोदो रक्षत नेन्द्रम् देवमांसदा यत्राम ददृशा कापि पृष्टेषु वत्सखा विश्वस्मादिन्द्र उत्तरः पराहीन्दसि दृशा कापेरति व्यधीः मो अहप्रविन्दश्चन्यत्र सोमपीतरे विश्वस्मादिन्द्र उत्तरः किमयम् त्वाम् मृषा मृगः यस्मादिनस्य दी त्वन्वा आर्य वा पुष्टिमन्दुविश्वस्मादिन्द्रमुत्तरः यहिमन्तम् पृषा कापिम् प्रियमिन्द्राभिरक्षासि स्वान्वस्त्यजम्भृषदभिकर्णे वराह युर्विश्वस्मादिन्द्रमुत्तरः प्रियादष्टारी मे कपिर्यट्टाम्य दूदृढ शिरान्मश्चिषम् न सुगम् दुष्कृते भुवम् विश्वस्मारिन्द्र उत्तरः नमस्त्रीषु वसत्तदानसुजासुतराभवत् न मत्प्रतिच्यमेयसे न सख्युज मेयते विश्वस्मारिन्द्र उत्तरः उमेयम् मदुनाभिगेयथे वाङ्गमाविष्यति वदन्मे अम्बक्षे मे शिरो वेबीवृष्यति विश्वस्मारिन्द्र उत्तरः किंसो बाहोऽस्वङ्गुरे प्रथुष्टे पृथो जाघने किंसोरपत्नीरस्तमभ्यमेषि वृषा कापिम् विश्वस्मादिन्द्र उत्तरः अमीराः वा वचम् शरादुरभिमन्यते उदाहमस्ति वीणीन्द्रपत्नी मरुत्स विश्वस्मादिन्द्र उत्तरः सम्होत्रम् स्वपुराणादि समानम् भाव गच्छति धारतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः इन्द्राणी मासुनारेषु सुभराः महमश्रवम् नष्ट्यश्चापरम् जलधरमरदेवतिर्विश्वस्मादिन्द्र उत्तरः नाहमिन्द्राणि नारणसक्षुर्विषा कापेर्भृते यस्येदमप्यम् हविप्रियम् देवेषु गच्छयति विश्वस्मादिन्द्र उत्तरः वृषाः गवाय रवति सुपुत्रा शुशुश्रूषे गसत्त इन्द्रमुक्षणः प्रियम् काचित् करम् हविर्विश्वस्मादिन्द्र उत्तरः मुक्ष्मो हि मे पञ्चदश साकम् पचन्ति विंशतिम् उदाहमद् कुक्षे व्रीणन्ति मे विश्वस्मादिन्द्र उत्तरः प्रिणभो न दिक्वशम् गोहोऽन्तर्जाथेषुरोवत् बन्धस्तरिन्द्रशंहृते यन्तेः सुनाते भावस्मादिन्द्रमुत्तरः न शे शेजस्य लम्बतेऽन्तरासख्या आहा कपेदे शेदेः शेजस्य नोमशम्निषे दुषो विजृम्भते विश्वस्मादिन्द्रमुत्तारः न से शेजस्य नोमशम्ने शेदुषो विजृम्भते जयी जेजश्च रम्बजयम् धरासख्या विश्वस्मादिन्द्र उत्तरः अयमिन्द्रविडागा परस्पन्तम् हतम् वेदते असिंसोदाम् नवम् चुमादेधस्या नेतम् विश्वस्मादिन्द्र उत्तरः अयमे विकागिम् श्वस्मादिन्द्र उत्तरः दन्व जय कृषा विषाकमेहि गृहा पुनर्विश्वस्मादिन्द्र उत्तरः पुनरेहि वृषाकमे सुभिता कल्पया वहैः ये कर्ष्वनम् इरुजम् जो वृषा कवे गृहमिन्द्राजकन्तस्मादिन्द्रमुत्तरः परशुर्ह मानसदो वंशतिम्भजम्भारस्याः भोत्यस्याः उदर मामद् विश्वस्मादिन्द्रमुत्तरः इरञ्जनामुपश्रुज नराशम् दत्तमिष्यते उष्टायस्य प्रवाहणो ष्टि सहस्रा हीडदे कौरव आुषमु दत्ह वधूम्न्दश वश्थ सेजीशले दिवजीष महापस्पृाई वाहेशता सहस्राह दश गोला पत्यस्त रेभ पत्यस्त वृक्षेण पक्वे सगुणाः नष्टे जिह्वाच्चरे दिक्षुरो न भुलीजोरिव प्रवेभासो मदेशा वृषागा वेरमोदपुत्रे का कालेशा ममोदय कालिवा हते प्रवेभधिजम् भरस्त गोविदम् वसुविरतम् ेवत्रे माम् वाचम् श्रीक्ष्णीवीरस्तारम् राज्ञो विश्वजनीलस्य मर्त्या वैतारस्य षष्ठीतिमासरोताः परीक्षिताः परीक्षिन्न क्षेम न करोत्तम आसनमाचरन् कुलायम् कुण्वन् गौरौ व्यदति जायया कदात्त आहाराणि दधिबन्धाम् परिसृतम् या यापदिम् विपृच्छति राष्ट्रे राज्ञः परीक्षिताः अभीवस्तत्प्रदीहीते जनः पक्वः पथोविदम् जनः स भद्रमेधयति राष्ट्रे राज्ञः परीक्षिताः इन्द्रः कालो नमो बुधदुत्तिष्ठ वितराजनम् मे दुग्गस्य चक्रे धिसर्वयुक्ते प्रणादरिः इह मन् प्रजा यद्वमिहाश्वामिहपूरुषाः इहो सहस्रदक्षिणो विभूषा नेमा इन्द्रगावासा गोपरीष मासाः ममित्रयुज्जन इन्द्रमास्तेन जीषत उपानो न सूक्तेन वचषावयम् भद्रेण वचषावयम् यः सभेदो विदक्षः सुत्वायज्ञा समोषः सूर्यम् चामूरिजादशस्तद्देवाः प्रागकल्पयन् यो जाम्या प्रसा यस्तद्यत्सखाः यम् दुदूर्षति ज्येष्ठो यत प्रचयतास्तदाहोरधरागिते यद्भद्रस्य पुरुषस्य पुत्रा भवति राधिः तद्विप्रोभ्रमे भ्राम् यम् वचाः यश्च पणे रघुज्येष्टो यश्च देवा अगाः सुरिः धीराणाम् षष्टामहम् तद पागिति शुश्रुमा ये देवा अज जन्तासो ये च सूर्योय विरक्ताय भगवानो विरक्षते यो नाक्ताक्ष अनभ्यक्त अवणेवो हिरण्यवाः अब्रह्म ब्रह्मणः पुत्रस्तोताकल्पेषु संविधा य आक्ताक्षस्तुभ्यक्तस्तुमणेवस्तु हिरण्यवाः सुब्रह्म ब्रह्मणः पुत्रस्तोताकल्पेषु संविधा अशंता रेवा अचिश अयभ्या कन्या कल्याणीतालेश सुणच चेसन्ताेवा सुप्रत दिशा शिवभ्या कन्या कल्याणीतालेशु संता परिवृत्ता च महिषी स्वस्थ युद्धिंग श्रुनायामी तोता, तोता, महा। तोता तो कल सं महेशी स्वस्थिंग श्वा शुरुआमी तोता कलु सं गिरीशाजे मानुषंध विरोप आसत सह यते तम् रेषाक्षम् भगवन्नम्रम् भर्याकरो रविः त्वम् रौहीणम् चास्यापि वृत्तश्चाभिदक्षिणः यः पर्वताद्य ददाद्य अपव्यगाहसा इन्द्रयोत्र महन्तस्मादिन्द्रे नमास्तुते पृष्ठम् धावन्तम् हर्यो रौच्चैः स्रवसमब्रुवन् स्वस्य स्व जयित्वायेन्द्रमावहसुस्वदम् ये त्वाश्वेदादेशव हार्य इन्द्रम् निर्षिणम् पूर्वानमस्य देवानाम् बिभ्रदिन्द्रमहीयते ये ताश्वा साधुम् पुत्रम् हि रङ्ग्यम् क्वाहदम् मरास्यः यत्रामोऽस्ति सिंशवाः परित्रयः पृजागवः शृङ्गम् धमन्त आसदे अयम् महादे अर्वाः स ईत्सकम् सखा गते सखागते गोवीत्या गोगतिरिति पुमाः कुस्ते निमिच्छसि पल्पबद्धमणो इति बद्धमो अघादिति अजागारके पिका अश्वस्य वारो गोशपत्यागे शेलीपती सा अरामयोपदिष्पिताः कोऽरीयबुलिमालिषूरि को असिद्याप्पयः कोऽ्यापयः कः काष्ट्यापयः एतम् पृच्छ गुहम् पृच्छ गुहाकम्पक्पाकम् पृच्छ यवा नोयति स्वभिः कुभिः अरोग्यन्तः कुपायगुः आमरणको मणत्सको देवत्वप्रतिसूर्य येन मङ्क्तिका हविः प्रदृगो मघाः वशाजाः पुत्रमायन्ति इदाह वेदो मनो अथो इयन्निजन्निति अथो इयन्निति अधोऽपास्थीलो भवन् उयम् चकांसलोकगा आमीलो निति भध्यते तस्य अधुनिभञ्जरम् वरो नो जातिवसपरभिः शतम् वा भारदेशवाः शरमाश्वाहि अन्यजाः शतम् अर्चाहिरन्यजाः शरम् कुधा हिरण्यजाः शरम् निष्ठाभिरन्यजाः अहलुषोत्तरा चभेन इव मोहते आयभरेण तेजने प्रनेष्टानावगृह्यति इदम् मह्यम् मन्धोरिति ये वृक्षाः सह तिष्ठति शकबलिः अश्वत्थ खदीरः धवोरतु परम शयो हदलीम ज्ञापयपूरूषः अदोहृत्या दोषकम् अत्यर्धश्च रस्पथाः दौवहस्तिनोः द्विती आलाहबुकमेकम् अलाबुकम् निखातकम् कर्करिको निखातकः तद्वा तपुन्वा छायति कुलाहारम् कृणवादिति उग्रम्ब निषलाः ददम् नव निषलाः ददम् कलेषाम् कर्करीरिषद् कलेषाम् दुन्दुभीषद् यदीयम् भरत्कथम् हद् दे। देवीहृदत्कुहरद् दे। पर्यागारम् पुनः पुनः तेऽन्युष्टस्य नामानि हिरण्यैगे अब्रवीत् दुवारे निरदिशण्डाः विदतौ किरणौ धालापि नष्टे पूरुषः नवी कुमारि तत्तथा यथा कुमारिमन्यसे मा तुष्टकिरणोद्दौ निवृत्तः पुरुषा ऋते नवी कुमारि तत्तथा यथा कुमारि मन्यसे निदृश्य कर्ण कहो मध्य मे नवी कुमारी तथा कुमारी मनसे वृत्ति मे वावली नवी कुमरी तथा कुमारी मनसे सरक्षा जहां सुरक्षे नाम सरक्षण मे वावूली नवैकुमरी तथा था कुमरिम्यसमी भ्रंशतंतर्लोभमति नव कुमरी त था यथ कुम्यसे इछगपाकुद गधरा गाकुद भत्त इध प्रागपाकुद गधरा पुषंत आसते इहेत्थ प्रागपागुद गधराक् स्थाली पाको विलीयते इहेत्थ प्रागपागुद गधराक्समैः पृथुरीयते इहेच्छ प्रागपागुद गधरागाष्टे लाहणीलीषति इहेर्थ प्रागपागुद गधरागच्छीपृच्छीलीषते भृगुत्यभिगतश्चरित्यवग्रान्तः फलित्यभिष्ठतः भ्याम् जलित लोधाबोदैव कोशविले ग्रन्थे धारपपादहि पादम् उत्तमी वाञ्जन्यानुत्तवाञ्जनम् परिशम्यात् आदकाम्यश्वत्थपदाशिकामदश्वतोः विद्युत्स्वापर्णशभो कोशभो जलित लोथाबोदैव ीमे देवाक्रम् सता क्षिप्रम् प्रजा श्रव्यवस्य हि प्रसोदी पत्रीयते पत्री यक्षबाणाचरित पत्री रोधावोः दैव होताविष्टी मे न जगत रोधावोः दैव आदित्याहजीरो लक्षेणामनयन् काम्भ जनितः प्रत्यायम् स्तामुख जनितः प्रत्यायम् काम्भ जनितन्न प्रत्यगृभ्रम् स्तामुख जनितन्न प्रत्यागृभ्रः आनेतरदन्न आदित्या रुद्रावसवस्ते नूत इदम् राधप्रति गृह्णीष्यम् गिरः इदम् राधोः बिभुप्रभोरिदम् राधोः बृहत्पृथु देवादरक्त्वाधूरम् दोः अस्तु सुतेन युष्मान् अस्तु दिवे दिवे प्रत्यय विभाजत त्वमिन्द्रशर्मणी न हव्यम् पालाहव तेभ्यः विप्रायस्तु वा सेवानिन्दुरस्तव सेवाः त्वमिन्द्र कपोतायच्छिन्नपक्षाय वञ्चते श्यामाकम्पक्पम् पेलो चकारस्माक्रेलोद्बहुः अरङ्गति त्रिधा बद्धो वयत्रजा विहल् प्रशासन्त्यति रामी यदस्याम्भुभेद्याः कृतस्थूलमुपाताशत् मुष्का विद्या कुला यहां स्थूल ने वशे मुष्काुपावधी पिष्पन्वर्धन सिम कर्द यदिस्विका कर्क शक्य देसं दिख तेज नंज बाहार वित्पति यद्देवासोम् प्रविष्टि निरमावासिकुलादे निश्चरे नारी सत्यश्चाक्षिभुभो यथा अहारङ्गे तत्रिमोऽनास्प चकम् शक्तुमपद्य आनन्द्यो लोगलमधिक्रामन्त्यब्रवीर् यथा तव बनस्पते निराघ्नन्ति तथैवति महानज्ञो बब्रूल भ्रष्टोत्प्य बुभवः यथैवते महानज्ञो बब्रूज भ्रष्टोदाप्य भुवः यथा वयोविदाह्य स्वर्गेण अवदश्यते महानज्ञूपब्रूदे स्वसावे शीतम् पसाः इत्थम् बलस्य वृक्षस्य शूर्पे शूर्पम् भजे महि महानग्ने कवाकम् शम्यजापरि धावति अयन्न विद्वयोः मृगः श्रेष्टाः धाणिका महानग्ने महाग्नो धावन्त मनो धावति इमास्तदश्च गानक्षरभ मामध्य उदयनम् सुरे वस्त्वा महानाग्ने महदस्सादृशोदलम् पुरम्बी मनो पशादग्रामे वाङ्कुरिम् प्रत्यजतो गतमम् परे महान्मी भद्रो जय मामध्य उदयनम् विदे वस्त्वाहाग्ने पादेव तस्सहा दुषोदनम् कुमारिकापिङ्गलिका कार्दभस्मः धावी महान् मे महान् भद्रवराः भिक्तव देवदः साधुशोदनम् यः कुमारी पिङ्गलिका वसन्तम् वरैलभयेत् तैलकुण्डगुवाङ्गुष्ठम् रोदम् सुने सुनमुद्धरेत् यद्धा प्रान्तोरो पण्डोर कथाणि हतारिन्द्रस्य शत्रवः सर्वे वस्तर्वे शवः कप्रन्नडक्क्रतमुत्त सातन चोदय वाजय सातरे इष्टज्ञः पुत्रमाच्याहोदय इन्द्रम् समाध इह सोम पीतरे काम्रोह अकारिषम् चिष्णानष्पस्य वाजिराः सुरभिनवमुखाः करर्प्रण आयोचारिषले सुदासो मधुमत्तमास्तो मा इन्द्राय मन्दिराः पवित्रावन्तो अक्षरम् देवानिर्गच्छन्तो मदाः इन्दुरिन्द्रायमवदय इति देवासो अब्रुवन् वाचस्पतिर्मखस्य देवि स्वस्ये सा शास्त्रधारवदे सन्द्रो वाचमेङ्खरः स्वमपति हीनरीकांसखेन्द्रस्य भवद्गप्सोऽहम् श्रुमतेवतिष्ठति जानो दशभिः सहस्रैः आभत्तमिन्द्रश्च चाधमम् तम वस्त्रैः अधत्त जप्सम पश्चम् विषोडेधरम् तमपारे नद्यो श्रुमत्याः प्रभो न कृष्णवतस्थिमाम् समिष्य शिवो वृषणो ताजौ अधभ्रः सोऽहम् उपस्ते उपस्थेधारम् तम् तृप्तिडानः ऋषो अदेवे अभ्याहारम् तेर्बृहस्पतेन इदेन्द्रः स साहे त्वम् हत्यत्सप्तभ्यो जायमानो शत्रुभ्यो अभवः शत्रोरिन्द्र गोल्हेद्यावाः पृथिवे अन्वृन्दो युवद्भ्यो भूवेभ्यो रन्धाः त्वम् हर्तृ प्रति मानमोजो वज्रेण वज्रन्द्रितो जय गन्थ त्वम् सुष्ठस्यादितम् गायिन्द्रक्ये दरविन्दः तमिन्द्रम् वाजजामसि महे भार सदृशाः वृषभोभूवत् इन्द्रस्तदामाने कृतवो निरावज्रो न संभतस्तो अनाच्युताश्वास्त्रे महाजन्यो दृष्टिवा सोमे बाँग। वत्स्य वृधे प्रजात प्रयत्भ विप्रात वाह कण्वायं क्रत स्थमेज साधन जाम्यम ब्रोवत आयुध नमश्विरा वत्सम वाससे प्र स्मे यदर्जनुतरातर यदन यदिपंच मानाषा गृणं तमश्विरा ंसा हंसश्विना विप्रासः परिमा मृषुः ेत् काण्मस्त्य बोधतम् अयम् वाम् घर्म अश्विना स्तोमेन परिषिच्यते निन्नाः सत्याभिषण्यथो यद्वा देवभिषज्यथाः अयम् वाम् वत्समतिभिन्नविर्न्येहविष्मम् हि गच्छतः आलोनमश्मिषिष्टोमम् जिकेतमाजयाः आसोमम् मधूमत्तमम् घर्मम् सिन्तादधर्वणि आलोनम् रघुवर्दनिम् रथम् तिष्ठाथो अश्मिरा तोमाजिवे मम नभो न चुच्छ वीरता यदद्यवाम् न सत्योर्थैराचुच्छुवे यद्बा वाणीभिरश्मिवेत् काण्मस्य बोधतम् यद्बाहम् कक्षेवाहम् उतरद्यश्च ऋषिर्यद्वाम् दीर्घता वाजुहावा ऋषि यद्वाहम् वैन्यः सादनेष्मेततो अश्विना चेतरेथा जातम् च तिष्पा उदनः परहस्प भूतम् जय गतनस्तरूपा भक्तिस्त्वकाल तदजाय यातम् यदिन्द्रे शरथम् याथो अस्मिदायद्वाः वायुना भवथः समाकसा यदा नित्येभुभिस्तदोषसायत्वा विष्णु विक्रमाणेषु तिष्ठातः यदद्यास्मिरः वहम्भुवेजयवाजयसातरे यत्पृत्सु दुर्वणे दहस्तच्छेष्टमश्मिनो नवाः पा नोरं याः तमश्मिरेवाहम् यानीवांसिता इमे सोमाः सोऽधीतुर्वजे यदाः विवे कण्वेशु वामथ अर्वागे अस्ति तेन दूनम् वेपदाय प्रचेतसा छद्दिर्वत्साय गच्छताम् अभुत् सुप्रदेह्यासाकम् राजाहमश्विनो व्याहव्या मतिम् राजिम् मध्येभ्यः प्रमो धजोजो अश्विना प्रदेहे विसूनृदेव प्रयज्ञहो तरा नृषप्रमदाः यष्टवोः बृहति यदोजासेसे भानुना संचसे आहायश्रोसो अंश वो गाव रथ प्रबोधि यद्वा वाणी रनो रजे अश्रा त्युन्ना प्रजवास रहाय शर्माक्षा प्रदेदा यन्नो नन्दीभिरश्विना पितोरा यद्वाहा सुम्नेभिरुक्त्या तम्बामृतम् मयमद्याहुवेमपृसद्र नमश्विना सङ्गतिङ्गोः यत् सूर्यम् महति बन्धुराजुर्गिर्वाहतम् वृतम् वसूर्यम् इवम् श्रिजेवना देवताम् विवरपादावरथश्च तेभिः युगोर्वपुरभिवृक्षस्तचन्तहम् निजत्क गुहासो रथे वा को वाहमध्याकारते रातहम् यगूतरे वा सुतपेनायवार्कैः नृतस्य वा मनुषे कोर्याचरणो ये मानो अश्विनावर्तते हिरण्यते न पुरभोरथे देवम् यज्ञम् न सत्यापजातम् विवाहाधयन् मधुरः सौम्यस्ते दधो रत्नम् विधते जनाः आ नो यातम् दिवो अच्छाः पृथिव्याभिरण्यजेन सुमृतारथेन मावाः मन्ये निज मन्दे वयन्तस्न यद् दधेनाभिः पूर्व्यावाह नो रयम्बो रवीरम् बृहन्तम् यद्वाहावस्मिरा स्तोऽवलावम् ततस्तो दिवाजमेल्सो अग्मन् यद्वाम् समनाभप्रक्षेते च भस्मे तु मतिर्वाहाजरत्ना उरुष्यतम् दरितारम् युवम् भस्मितः कामोहो नासत्याजुभर्द्रि मधूमतिरोषधीर्जवापो का मधूमन्नो भवत्तन्तरिक्षाम् क्षेत्रस्य <Sus> पतिव धूमान् अस्तरिष्यन्तो अन्वेलम् चरेव प्रणायम् कदश्चिदा कृतम्बा मृष बरज पृथिव्याः सहस्रम् शंसः उदरे गवेष्टौ सर्वाम् दिवाराम् उपजाता विबध्यै ओ इति विंशम् समाप्तम् इति अथर्वमेवान्तर्गतशौरगशाखा संहिता सम्पूर्ण पृथिवीशान्तिरन्तरिक्षम् शान्तिर्जन्तिरापश्चान्तिरोषजश्चान्तिर्वहस्पतजष्टान्तिर्विश्वे बे देशान्ति सर्वे वे देवाश्चान्तिष्टान्तिश्चान्तेभिः भिश्चान्तेभिः सर्वशान्तेभिश्च मया मोहम् यदिह घोरम् यदिह क्रूरम् यदिह पापम् तच्छान्तम् तच्छिवम् सर्वमेव शमस्तु नः